मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं वन् त्रिविधतपोवर्णनम् श्रीगणेशाय नमः शौनक उवाच श्रुतं महाख्यानम महाख्यानं गजाननकथाश्रुतम् सर्वसौख्यकरम् तादब्रह्मभूतपदप्रदम् तथा तृप्तिम् न याम्येव पीत्वा ब्रह्मामृतम् परम् गुणज्ञो गणराजस्य कष्टं मुञ्जदिमानद धन्या महाभाग त्वदा यत्र योगप्रदागाधा वरुददे त्वन्मुखे द्विज लम्बोदरस्य माहात्म्यमधुना वद सर्वदम् कीदृशोऽयम् गणेशानकीदृश्यम् ब्रह्मतस्य च कदितस्यावताराश्च किङ्कर्मा सोऽपि विघ्नपः किमर्थमागतो भूमौ तत्सर्वं वदविस्तराद सुत उवाच एवं दक्षेण संश्रुत्य गजाननचरित्रकं पृष्ठो योगीन्द्रमुख्यश्च गाणपत्योधमुद्गलः दक्ष उवाच गजाननस्य माहात्म्यं श्रुत्वा संक्षेपदः परं न तृप्तोऽहं महाभागपायं पायं, पायं सुधामिव अदो लम्बोदरस्य चरित्रं वद विस्तराद सर्वसिद्धिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् गणेशस्य कथां योगिन् शृण्वन्ति च पठन्ति ये श्रावयन्ति प्रपृच्छन्ति चत्वारः पुण्यभागिनः धन्याये पुरुषालोके सादरा मुनिसत्तमा कथायां कृतकृत्यास्ते योगिनो योगभूषणाः सूद उवाच एवम् तस्यादरं दृष्ट्वा हर्षिदो मुद्गलो मुनिः जगाद महाभागं प्राजा प्राजापत्येन्द्रमादराद मुद्गल उवाच साक्षाद् ब्रह्मसुधस्त्वम् च ब्रह्मतुल्यो न संशयः तत्र किं गणनाथे वैचित्रं रसयुधः प्रभो येषां मुखारविन्देषु गणेशस्मरणं भवेद इच्छामि तेषां दासत्वं नित्यं दक्षप्रजापदे अधुना शृणुवक्ष्यामि सङ्क्षेपेण चरित्रकम् लम्बोदरस्य विस्तारे कः समर्थो भवेत्प्रभो संवादम् पूर्णसम्भूतमसि तस्य महात्मनः नैध्रुवस्यात्र वक्ष्यामि सर्वसिद्धिप्रदायकम् प्रणम्य मुनिशार्दूलो नैध्रुवो वत्सरं वनम् ययौ तपः प्रसिद्ध्यर्थं महाभागो महामुनिम् सततापतपोखोरं तापतपोघोरम् दिव्यवर्षसहस्रकम् तपसा तस्य देवेन्द्र भीदाश्च प्रबभूविरे किमयम् तपसा साध्यं कर्तुमिच्छति वाडवः न तुल्यं तपसोऽस्यात्र ब्रह्माण्डे किं भविष्यति ततस्तस्याश्रमे कस्मादसिदो भवदागदः पितृव्यं मुनिरुद्धाय प्रणनाम कृताञ्जलिः कुभोजभक्तिसंयुक्तकृताञ्जलिपुटस्थितः तस्याज्ञया विनीतः स आसने संस्थितो भवद तमुवाच महायोगी सोऽसिदो हितकारकं वचो भावेन सन्तुष्टो भ्रातृपुत्रं तपोधनम् अशित उवाच देहं किं तपसा पुत्रादिशोषयसि तापस देहशोषणरूपं यत्तपो मुख्यं न शास्त्रतः अधो देहश्रमं त्यक्त्वा तपो मुख्यं समाचर येन त्वं ब्राह्मणो भूत्वां ते ब्रह्मणि गमिष्यसि मुद्गल उवाच असि तस्य वचः श्रुत्वा नैध्रुवो भक्तिसंयुधः पुनः पप्र च योगीन्द्रं संशयेन समन्वितः नैध्रुव उवाच कृच्छान्द्रादिधर्मेण यथाविधि कृतं मुने तपो ब्रुवन्ति सर्वज्ञास्तत्र मुख्यम् किमप्यहो असित उवाच तपश्च त्रिविधं प्रोक्तं तापदं नात्र संशयः तच्छृणुष्वविधानेन योगिवन्द्यो भविष्यसि कृच्छ्रचान्द्रायणादीनि तपांसि प्रवदन्ति च पञ्चाग्निसाधनादीनि वायुभक्षात्मकानि च इत्यादिभेदा बहवस्तपसो विविधस्य च तदेव बाह्यभावस्तं पुत्रजानीहि निश्चितम् इहात्रप्रदं तादपः फलमयं स्मृतम् फलम् भुक्त्वा पुनः सोऽपि दीनरूपो भवेत् किल अन्यच्छृणुमहाभागस्तपः परमदुश्चरम् वायुरोधात्मकम् देहे प्राणायामेन जायते दे तत्र प्राणस्य सन्तापो जायतेनात्र संशयः देहस्यापि तथा पुत्र तपस्तेन तदुच्यते षट्चक्रभेदने दक्षमन्तर्ध्यानपरायणः सहस्रारे गदं वायुं रोधयेत्तत्र लालसः तपःप्रभावेन तेन क्षुद्रसिद्धियुधो नरः भवदे ज्ञानमार्गज्ञस्त्रिकालज्ञानसंयुधः दूरश्रवणसामीप्यम् कुरुदे कामगाम् गदिं जले स्थलं स्थलेतोऽयमाकाशे नगरादिकम् अहताज्ञश्च सर्वत्र भवदे परमद्युदिः अपरायुःसमायुक्तो ब्रह्माद्यांश्चालयत्यपि एककल्पस्य सर्वेषां वृत्तान्तं कथयत्यपि जानाति स तपो योगादन्तर्ध्यानपरायणः सोऽपि गत्वा विधिर्लोकं भुनक्ति विविधं सुखं पुण्यान्ते पुनरत्रैव दीनो भवति निश्चितम् तृतीयम् त्वम् तपोरूपम् शृणु मत्तो सुयोगदम् द्विविधम् च तपो येन साधितम् गुरुमार्गदः तेनैकाग्रमयम् चित्तम् भवत्यत्र न संशयः सर्वत्रात्मस्वरूपं स पश्यति ज्ञानचक्षुषा तत्रानुभवमात्रेण शमदमपरायणः भवते तेन देहे मनसि जायते विषयान्निन्दयन्सोऽपि जडोन्मत्तपिशाचवत् चरदि सर्वभावज्ञ आत्मनिष्ठतया सुत ततो निरोधयोगेन निवृत्तिषु परायणः चित्तं संवृद्ध्य सर्वत्र निवृत्तिं लभते स्वयम् अहम् ब्रह्मेदि यत्प्रोक्तम् कुतस्तत्र भयं भवेत् न जगज्जगदात्मा वै मनो वाणी विहीनकः स्वद उद्धानभावो नोद्धानं परद एव न स्वतः परतस्तत्र उद्धानं वर्जितं भवेद् एवं निरोधयोगेन शमीदमपरायणः सन्तोषेण स्वयं योगी वर्तदे नित्यदासुदा तत्र सन्तोषभावेन देह चेदसोः सन्तापो जायते नित्यं तदेव तप उच्यते ततो निरोधभूमिं सत्यक्त्वा शान्तिपरायणः त्यक्त्वा पञ्चविधं चित्तमेवं ब्रह्मैव जायते तदो विधिनिषेधाभ्यां हीनो योगधरस्वयं रसहीनश्चरत्यत्र प्रारब्धा नो भवे न सह जलानि सर्वत्र सुधच्छन्ति सागरे यदृच्यया तथा सोऽपि भोक्ता भोगेन नित्यदा तत्रान्तरे शरीरेस्य तापः संजायते सदा सान्द्या भोगपरत्वेन तदेव तप उच्यते यदद्योगात्मकं सुज्ञपस्ते कथितं मया तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर तपोद्धना महाभाग योगिनस्तत्परायणाः ब्राह्मणास्तपसा युक्ता ब्रह्मभूदा भवन्ति ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे कण्डे लम्बोदरचरिरे असिद नैध्रुवसंवादे त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ओ